श्री परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते मापुराणे सप्तमस्कन्धे पञ्चत्रिंशोऽध्याय हिमालय उवाच योगम् वेद महेशानि साङ्गं संवित्प्रदायकम् पुटेनायेन योग्योऽहम् भवेयं तत्सदर्शने देवी उवाच न योगो न न भूभो नरसतवेक्यं जीवात्मनो राहु योगं योगविशारदा है तत्प्रत्युहाय षडा ख्याता योगविघ्न करा नगे कामक्रोधो लोभमोहो मदमाश्चर्यगो योगाङ्गैरेव भित्ताम् योगिनो योगमाप्नुयुः यमं नियममासनम् इमं नियमम् आसन प्राणायामोचतः परम् प्रत्याहारम् धारणाख्यम् ज्ञानम् साहम् समाधिनाय अष्टाङ्गान्याहुरेतानि योगिनां योगसाधने अहिंसा सत्यमस्तेयम् ब्रह्मचर्यम् दयाधवम् क्षमाधृतिर्मिताहर शोचं चेति यमादश तपः सन्तोषस्तिक्यम् दानम् देवस्य पूजनम् सिद्धान्तश्रवणं चैवीर्मति स जपोहतम् दशयते नियमः प्रोक्ता मया पर्वतनायक पद्मासनं स्वस्तिकं च वज्रं वज्रासनं तथा वीरासनम् इति प्रोक्तं क्रमासन पञ्चकम् उर्वपरिभिन्नस्य सम्यक् पादपरे शुभे अङ्गुष्ठौ च निबन्धी यत् हस्ताभ्यां व्युत्क्रमात् ततः पद्मासनम् इति योगिनां हृदयङ्गमम् जानुर्वोरन्तरे जानुर सम्यक् कृत्वा पादतले शुभे ऋषुकायो विषये योगी स्वस्तिकं तत्प्रक्षते चिवन्यः पार्श्वयोन्यस्य गुल्फ युग्मम् सुनिश्चितम् वृषणाधये पादपाष्णी पक्ष्णिभ्याम् परिबन्धयेत् भद्रासनम् इति प्रोक्तम् योगिभिः परिपूजितम् पूर्वोः पादौ क्रमान्यस्य प्रत्यङ्मुखाङ्गुलिः करो विदु आख्यातं वज्रासनमनोत्तमम् एकं पादमधः कृत्वा विन्यश्चोरुं तथा तथोत्तरे ऋजुकायो विषेद्योगी ीरासनमितीरितम् क्रीडया कर्षयेद्वायुं बाह्यं छोडश मात्रया धारयेत् पूरितं योगी चतुष्षष्ट्या तु मात्रया सुषुम्नामज्जगम् सम्यक् द्वात्रिंशन्मात्रया शनैः नाड्यापिङ्गलया चैवोगवित्तमः याममिभं प्रहु योगशास्त्रे विशारदाः भूयो भूयः क्रमा तस्य समाचरे मात्रा वृद्धि क्रमेणैव सम्यग् द्वादश षोडश जपध्यानादिभिः सारं स गर्भं तु विदुर्बुधः तदपेतं विगर्भं च णायामं परे विदुः क्रमादभ्यस्य तत् पुंसौ देहे स्वेदोद्गमोद्गमः मध्यमं चम्पसंयुक्तौ भूमित्यागपरो मतः उत्तमस्य गुणावाप्ति यावच्छीलनमिष्यते इन्द्रियाणां विचरतां विषयेषु निरर्गलम् बलादाहरणम् तेभ्य प्रत्याहरो विधीयते अङ्गुष्ठगुल्फ धानोरु मूलाधोसी मूलाधोलिङ्गनाभिषु रुग्रीवा कण्ठदेशेषु लम्बिकायान्ततो नसि ब्रूमध्ये मस्तके मूर्नि द्वादशान्ते यथाविधि धारणम् प्राणमरु मरुतो धारणेति निगद्यते समाहितेन मनसाय चैतन्यान्तरवर् वर्तिनाय आत्मन्यभिश्च देवानां ज्ञानम् ध्यानम् योच्यते स मत्वभावना नित्यम् जीवात्म परमात्मनो समाधिम् आहुर्मुनयः प्रोक्तम् अष्टाङ्गलक्षणम् कथयेतेहम् अन्त्रयोगम् अनुत्तमम् कृषम् शरीरमित्युक्तम् पञ्चभूतात्मकम् नग चन्द्रसूर्याग्नितेजोभि जीवब्रह्मैक्यरूपकम् तिस्र कोट्यस्थेन शरीरे नाडयो मतः समुख्या दश प्रोक्तः व्यवस्थितः मेरु दण्डे त्रय चन्द्रूर्याग्निरूपिणी विरावाे सिता नाडि शुभ्र तु चन्द्ररूपिणी शक्ति रूपा तुधानाडी साक्षात् अमृत विग्रह चक्षिणेया पिङ्गलाक्षमरूप सूर्य विग्रह सर्वेजो महि सा सुचुम् निरूपिणी तस्यां मध्ये विचित्रा के इच्छा ध्यानक्रियात्मकं मध्ये स्वयं भू तु कोटि सूर्यतमप्रभम् तद् बीजं तु हरात्मा बिन्दुनादकं तद् उर्ध्वं तु शिखरकारय कुण्डली रक्तविग्रहा देव्यात्मिका मदभिन्नाय ने हेमरूपाभीशान्त चतुर्दलम् द्रुत हेमप्रक्षं पद्मं तत्र विचिन्तयेत् तद्वं तु नड् दलं हीरकप्रभम् बाले जिलान्तषड्वर्णेन स्वाधिष्ठानम् अनुत्तमम् मूलम् आधार शैकोणम् मूलाधारम् ततो विदुः स्वशब्देन परम् लिङ्गम् ततो विदुः तदुर्धम् नाभिदेशे तु मणिपुरम् महाप्रभम् मेघाभम् च बहुतेजोमयम् ततः मणिवद्भिन्नं तत्पद्मम् मणिपद्मं तदुत्तथोच्यते दशभिश्च दर्युक्तम् विष्णुराधिष्ठितं बद्धम् विष्णु आलोकनकारणं च दुर्ध्वेनाहतं पद्मम् उद्यताधिश्च सन्निभम् काधिष्ठाम् पत्रे तन्मध्ये ब्रणलिङ्गं तु सूर्यायुतमप्रभम् शब्दब्रह्म मह्यं शब्दान आहतं तत्र दृश्यते अनाहताख्यं तद् पद्मभिः परिकेति आनन्दसजनं तत्तु पुरुषाधिष्ठितम्बरम् तदूर्ध्वं तु विशुद्धाख्यम् दलं छोड च पङ्कजम् स्वरै छोडचर्युक्तम् धूम्रवर्णम् महाप्रभम् विशुद्धं तनुते यस्मात् जीवस्य हंसलोकनात् विशुद्धम् विशुद्धं आकाशाख्यम् अहद्भुतम् आज्ञाचक्रं तदूर्ध्वं तु आत्मनाधिष्ठितं वरम् आज्ञासङ्क्रमणं तत्रे तेनाद्येति प्रकीर्तितं द्विदलं हस्तु मनोहरम् कैलासाख्यां तदुर्धं तु रोधिनी तु दुर्धतः एवं साधार चक्राणि प्रोक्ता सहस्रारयुतं बिन्दौ स्थानं स दुर्ध्वीरितम् इत्येतत् कथितम् मनुत्तमं योगमार्गम् अनुत्तमम् आदौ पूरकयोगेन अप्याधारे योजयेन्म मनः गुरमेढान्तरे शक्ति तामाकुञ्च प्रबोधयेत् लिङ्गभेदे क्रमेणैव बिन्दुचक्रं च प्रापयेत् शम्भुना ताम् परां शक्तिम् एके भूताम् विचिन्तयेत् तत्रोत्थितामृतम् यत्तु द्रुतलाक्षारसोपमम् पायित्वा तु तां शक्तिम् मायाक्षां योगसिद्धिराम् षट्चक्रदेवतास्तत्र सन्तर्क्यामृतधारयाय अनये तेन मार्गेण मूलाधारं प्रदस्तु एवमभ्यस्य बाणस्यापि अनिहनिश्चितम् पूर्वकदूषिता मन्त्राः सर्वे सिद्ध्यन्ति नान्यथाय जरामरेण दुःखाद्यै मुच्यते भवबन्धनाय ये गुणाः देव्यामे देव्या मे जगन्मातुर्यथा तथा ते गुणास्तादकवरे भवन्त्येव न चान्यथ इत्येवं कथितं तात वायुधारणमुत्तमम् इदानीं धारणाख्यन्तु शृणुष्वहितो मम दिक्कालाद्यनुवच्छिन्ना देव्यां दे चेतु विधायते चे, तन्मयो भवति क्षिप्रं जीवब्रह्मैक्ययोजनात् अथवा समलं चेतो यदि क्षिप्रं न सिध्यति तदा वयेव योगेन योगी योग समभ्यसेत् मदीयहस्तपादादौ अङ्गे तु मधुरेण चित्त संस्थापयेन् मन्त्री स्थानं स्थान जयात् पुनः विशुद्धचित्त सर्वस्मिन् रूपे संस्थापयेन्मनः यावन्मनोलयं याति देव्यां संविपर्वत तावदिष्टमधं मन्त्री जप होमहि समभ्यसे मन्त्राभ्यासेन योगेन नियध्यानाय न योगेन योगे विना मन्त्रो न मन्त्रेण हि मन्त्रेण विना हितः द्वयोरभ्यासयोगो हि ब्रह्मसंसिद्धिकारणं तमप्रतिपरिवृते गेहे घटोद्वीपेन दृश्यते एवं मायावृतो ह्यात्मा मनु नागोचरीकृतः इति योग श्रीकृष्णः साङ्गो प्रोक्तो मया गुरुपरे देशतो न्येयो नान्य शास्त्र कोटिभि इति श्रीमद्देवी भागवते महापुराणे चादृशायां सप्तमस्कन्धे देवी गीतायां मन्त्रसिद्धि साधनवरङ्गत्रिंशोऽध्याय श्री जगदम्बिकाय अर्पणमस्तु